नारदपुराणम् उत्तरार्धम् अध्यायम् एटि टु ऋषय ऊचुः सुदसाधो त्वयाख्यातं श्रीकृष्णचरितामृतं श्रुतं कृतार्थास्तेन स्मो वयं भवदनुग्रहाद गदेव ब्रह्मलोकं मोहिनी विधिनन्दिनी किं च पारतदः पश्चात् तन्नो व्याख्यातुमर्हसि सुद उवाच शृणुध्वमृशयः सर्वे मोहिन्याश्चरिदम् शुभं यच्च पारवस्व पश्चात्तीर्थानां परिसेवनं यथानुशिष्टावसुना मोहिनी स विधे सुदा जगामविधिता तीर्थयात्रार्थं स्वर्णदीतडम् तत्र गत्वा समापृत्य गङ्गाधीनि तु वैधसी चचार विधिवदृष्टा ब्राह्मणैः सह सङ्गता पुरोहितेन वत्सुना यस्य तीर्थस्य यो विधिः कथितस्तत्प्रवकारेण सेवमाना चचारः तेषु तीर्थेषु देवांश्च विष्णुवादीन् पूजयन्त्यश्च समर्पयन्ती विप्रेभ्यो दानानि विविधानिजा। जयां विधिवद्भर्तु पिण्डदानं चकारः काश्यं विश्वेश्वरं प्रार्थ्य सम्प्राप्ता पुरुषोत्तमम् तस्मिन् क्षेत्रेऽनैवेद्यम् भुक्त्वा स जगदीशि द्युः सुधदेह तदपश्चात् सम्प्राप्ता लक्ष्मणाचलम् तम् समभ्यर्थ्य विधिवद्गत्वा सेतुम् समर्च्यज तमेश्वरम् महेन्द्राद्रिम् भार्गवम् समवन्तद गोकर्णम् च शिवक्षेत्रम् गत्वा अभ्यर्च्यतमीश्वरम् प्रभासम् प्रययौ विप्राह सार्धन्तैर्द्विजतमैः ज्ञात्वा सन्तर्प्य देवादीं तस्य यात्राम् विधाय च द्वारकायाम् हरिम् दृष्ट्वा कुरुक्षेत्रम् जगामसा तत्रापि विधिवद्यात्राम् संविधाय नरेश्वरी गङ्गाद्वारमुपेयाय तत्र सष्णौ विधानदः तदस्तु दृष्ट्वा कामो नमस्कृत्यमुदान्विता बदर्याश्रममासाध्य नरनारायणा वृषि समभ्यर्च्याथ कामाक्षीं ययौ द्रष्टुं त्वरान्विदा सिद्धनाथं नमस्कृत्य तदो योध्यामुपागदा स्नात्वा सरय्वां विधिवत् प्राच्य सीतापतिं तदः माध्ययात्रामुपाश्रित्य ययावमरकण्टकम् महेशं तत्र सम्पूज्य प्रति नर्मदाम् सं सेव्योङ्कारमीशानं दृष्ट्वा माहिष्यदीं ययौ तदप्रार्च्य सम्प्राप्ता पुष्करेषु विधानेन दत्त्वा दानन्यनेकशख सम्प्राप्ता साधु मधुरां सर्वतीर्थोत्तमोत्तमं विधायाभ्यन्तरीं परिक्रम्य भुरीं पश्चाच्च दुर्व्युहं ददर्श स स्नात्वा विंशतितीर्थे दुः समाप्याधप्रदक्षिणां धेनूनामयुधं प्रादान् माधुर्येभ्यो ह्यलङ्कृतं सम्भोज्य तान्नुवरान्येन भक्तिक्लिन्नेन चेतसा नमस्कृत्य विसृज्य एतान् कालिन्दीं समुपाविशद तदप्रविष्टा सा देवीं कालिन्दीमघनाशिनीं नाद्यापि निर्गताभूयो यमतिभ्यन्तमास्थिदा स्नातान् सूर्योदयं प्राप्य श्रौदानाप्यरुणोदयं निशीथं वैष्णवान् विप्राक् प्राप्य दूषयदे व्रतान् मोहिनी वेदरचिता मूपेश्यैकादशीं नरः द्वादश्यां विष्णुमभ्यर्च्य वैकुण्ठम् जात्य संशयम् मोहिनी विधिदा देवी विष्णुज्यैकादशी द्विजा द्विजाः च स्पर्धया धात्रा मोहिनी सा विनिर्मिता रूक्मा गदस्तु राजर्षेर्विष्णो भक्तिपरायणः न तु वारयितुं शक्ता सा तमेकादशी विष्णुलोकं गदे तस्मिन् सभाज्ये ससुते नृपे स्पर्धं त्यैकादशी सिद्धिं यमान्दे मोहिनी स्थिता इत्येतदुक्तं विप्रेन्द्रा मोहिनीचरितं मया यदर्थं निर्मिता धात्रा तथा चात्राव्यवस्थिता नारदीयोत्तरं ह्येदत् प्रोक्तं वो भुक्ति मुक्लीदम् अस्त्र सम्यक् करिर्भक्तिः साध्यतेऽनुपदं तृणां नारदीयं पुराणं तु लक्षणायुर्दशभिर्युधं यशृणोदि नरो भक्त्या च कारणं परं सर्वेषां च पुराणानामिदं बीजं सनातनं प्रवृत्तं च निवृत्तं च पुराणेऽस्मिन् द्विजोत्तमाः तगदुदिदं सर्वं पाराचर्येण धीमतम् अलौकिकचरित्राढ्यम् पुराणं नारदीयकं यस्मै न दातव्यं मह्यं व्यासेन कीर्तितं हित्वा स्वशिष्यान् पैलादीन् मह्यं नारद संहितां यो व्याचक्रे नमस्तस्मै वेदव्यासाय वैष्णवे पुराणसंहितामेधां नारदाय विपच्यते कनकाद्याप्रहाभागामुनह्य प्रचकाशिरे हंसस्वरूपी भगवान्यदातं तं, तं ब्रह्मशाश्वतं तदुपाधिशदेभ्यो विज्ञानेन विजृम्भितम् तदिदं भगवान् साक्षान्नारदोऽध्यात्मदर्शनः वेदव्यासायमुनय रहस्यं निर्दिदेश्यः मया प्रकाशितं ह्येद्रहस्यं भूवि दुर्लभं चतुर्वर्गप्रदं नृणां शृण्वतां पठदां सदा विप्रो वेदनिधिर्भूया क्षत्रियो जय धीमहीम् वैश्योधनसमृद्धस्य क्षूद्रोमुचेदुःखदः पञ्चविंशतिसाहस्रीसंहितेजम् प्रकीर्तिता पञ्चपादसमायुक्ता कृष्णद्वैपायनेनः अस्यां वैशूयमाणायां सर्वसन्देहभञ्जनं पुंसां सकामभक्तानां निष्कामानां विमोक्षणं पुण्यतीर्थं समासाद्य नैमिषम् पुष्करं गयाम् मधुरां द्वारकां विप्रां नरनारायणाश्रमं कुरुक्षेत्रं नर्मदां च क्षेत्रं श्रीपुरुषोत्तमम् अविश्याशीधराचारी निस्सङ्गो विजितेन्द्रियः पठित्वा संहिता मेनामुच्यते भवसागराद एकादशीप्रदानां च सजितां यदा वृन्दावनमरण्यानाम् क्षेत्राणाम् कौरवम् यथा यथा काशीपुरीणाम् च तीर्थानाम् मधुरा यथा सदसाम् पुष्करम् विप्राः पुराणानामिदं तथा गणेशभक्ता mm. सौराश्च वैष्णवा शाब्दः शाम्भवाः सर्वेधिकारिणो यत्र स यं यं काममभिद्या यन्नरो नार्यथ वादराद शृणोति श्रावयेद्वापि तं तं प्राप्नोति रो मुच्यते रोगार्थोमुच्यते रोगाभयार्थो निर्भयो भवेद जय कामो जय शत्रून् नरदीयानुशीलनाद सृष्ट्यादौ रजसा विश्वमध्ये सत्त्वेन पाधियः तमः ्रेदेत तस्मै सर्वात्मने नमः ऋषयो मनवःसिद्धलोकपालाः प्रजेश्वराः ब्रह्माद्या रचिता येन तस्मै ब्रह्मात्मने नमः यतो वजो निवर्तन्ते न मनो यत्र संविषेद तद्विद्यादात्मनो रूपम् ह्यरूपस्यचिदात्मनः यस्य सत्यतया सत्यं जगदेदद्विकाशदे विचित्ररूपं वन्दे तं निर्गुणं तमसः परम् आदौ मध्ये चाप्य जनश्चान्दे चैकाक्षरो विभुः विभादिनारूपेण तं वन्देहं निरञ्जनं निरञ्जनसमुत्पन्नं जग भेदचराचरं तिष्ठत्यप्यदि वा यस्मिन् तत्सत्यं ज्ञानमद्वयं शिवं शैवा वदेत्येनम् प्रधानम् साङ्ख्यवेदिनः योगिनः पुरुषम् विभ्रा कर्ममीमांसका जनाः विभे वैशेषिकाद्याश्च विच्छक्तिम् शक्तिचिन्तकाः ब्रह्मा द्वितीयम् तद्वन्देनारूपक्रियास्पदम् भक्तिर्भगवद पुंसाम् भगवद्रूपकारिणि तां भगवद्विमुखा ये दु नरा संसारिणो द्विजाः तेषां मुक्तिर्भवातव्या नास्ति सत्सङ्गमं तरा साधवसमुदाचारात् सर्वलोकहितावहा दीनानुकम्पिनो विप्राक् प्रपन्नास्तार यन्ति यूयं धन्यतमालोके मुनय साधु समदाः यन्मुः वासु वासुदेवस्य कीर्तिं पल्लवनूतनां धन्योऽस्म्यनुगृहो धन्योऽस्म्यनुगृहीतोऽस्मि भवद्भिर्लोकमङ्गलं यस्मारितो हरित्साक्षात् सर्वकारणकारणम् ओम् इति श्री नारदीयपुराणे बृहदुपाख्याने उत्तरभागे महापुराणश्रवणादिफलनिरूपणं नाम व्यवितमोऽध्यायः समाप्तमिदं सप्तमं नारदीयं महापुराणम्